मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायम् 55 फैव् मदासुरचरितसमाप्ति श्रीगणेशाय नमः गृक्षमद उवाच मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखासुराः भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः प्रणम्यतं प्रपूज्यादौ पुनस्ते नेमुरादराद तुस्तु उर्हर्षसंयुक्ता गजाननं। गजाननम् देवर्षय ऊचुः सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् अधादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः अनन्दचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यं हृदि प्रकाशस्य धरं स्वधीष्टम् तमेकदन्तं शरणं व्रजामः समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवं तमेकदन्तं शरणं व्रजामः स्वबिम्बभावेन विलासयुक्तां प्रकृत्यमायाम् विविधस्वरूपां सुवीर्यकं तत्र ददादि यो वै तमेकदन्तं शरणं व्रजामः समर्थभूतं स्वमायया संरजितं च विश्वं तुरीयकं ह्यात्मकवित्तिसंज्ञं hmm. तमेकदन्तम् शरणं व्रजामः त्वदीयसप्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारं भजन्त आद्यं तमजं त्रिसंस्तास्तमेकदन्तं शरणं व्रजामः तदस्त्वया प्रेरिदनादगेन सुषुप्ति संज्ञं रजितं जगद्वै समानरूपं च तथैकभूदं तमेकदन्तं शरणं व्रजामः तदेव विश्वं कृपया प्रभुदं द्विभावमादौ तमसाविभादम् अनेकरूपं च तथैकभूदं तमेकदन्तं शरणं व्रजामः ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थं सुसात्विकं स्वप्नमनन्दमाद्यं सु तमेकदन्तं शरणं व्रजामः तदस्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव सतैकरूपं कृपया च देय तमेकदन्तं शरणं व्रजामः त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपं विभिन्न जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः तदेव जाग्रग्रजसा विभागं विलोकितं त्वकृपया स्मृतेश्च बभूवभिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः तदैव सृष्ट्वा प्रकृतिस्वभावात् तदंदरेत्वं त्वं च विभासि नित्यम् धियप्रदागणनाथ एकस्तमेकदन्तं शरणं व्रजामः सर्वे ग्रहाभानि यदाज्ञया च प्रकाशरूपाणि विभान्तिखे वै भ्रमन्दिनित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः त्वदाज्ञया करो विधादा त्वदाज्ञया पालक एव विष्णुः त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः यदाज्ञया भूस्तु जले प्रशंस्ता यदाज्ञयापः प्रवहन्ति नद्यः स्वधीरसंस्तश्चकृदस्समुद्रस्तमेकदन्तं शरणं व्रजामः यदाज्ञया देवगणादिविष्ठा यच्छन्ति वै कर्मफलानि नित्यं यदाज्ञया शैलगणा स्थिरा वै तमेकदन्तं शरणं व्रजामः यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहदयेवकामः यदाज्ञया कालधरोर्यमाच तमेकदन्तं शरणं व्रजामः यदाज्ञया वादिविभादि वायुर्यदाज्ञयाग्निर्जढरादिसंस्थः यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति अनन्तरूपं हृदि बोधकं तमेकदन्तं शरणं व्रजामः सुयोगिनो योगबलेन साध्यं कस्तवने समर्थः अधः प्रणामेन सुसिद्धितोऽस्तु तमेकदन्तं शरणं व्रजामः गृत्समद उवाच एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् तूष्णीं भावं प्रपद्यैव न नृतुर्हर्षसंयुताका स तानुवाचप्रीतात्मा देवर्षीणां स्तवे न वै एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलहा एकदन्त उवाच स्तोत्रेणाहं प्रसन्नोऽस्मि सुराः सर्षिगणा खलु वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितं भवत्कृत मदीयं यत् स्तोत्रं प्रीतिप्रदं च तद् भविष्यदि न यद्यदि क्षदि तत्तद्वै प्राप्नोति स्तोत्रपाठकः पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकं गजाश्वादिगमत्यन्तं राज्यभोगादिकं ध्रुवं भुक्तिं मुक्त्रिं च योगं वै लभते मारणोच्चाडनादीनि राज्यबन्धादिकं च यद् पठतां शृण्वतां नृणां भवेत्तत् बन्धहीनता एकविंशतिवारं यश्लोकाने वैकविंशतिं पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिं न दुर्लभं किञ्चित् त्रिषु लोकेषु वैभवेद असाध्यं साधयेन्मर्त्य सर्वत्र विजयीभवेद नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वैनरः तस्य दर्शनद सर्वे देवाः पूजा भवन्ति च एवं तस्य वच श्रुत्वा प्रहृष्टा अमरर्षयः ऊचुः सर्वे करपुटैर्भक्र्या युक्ता गजाननम् देवर्षय ऊचुः धन्या वयं गणेशान् एकदन्तधरप्रभो देव भाषणान्नात्र संशयः वरं देहि त्वदीयानो भक्तिश्च सुदृढा भवेद मायाहीनास्तथा देवकृतकृत्या भवामहे यदा सङ्कडयुक्ता वै श्याम गजानन तदा नो रक्षदेवेश वरमेवं वृणीमहे तेषां वचनमाकर्ण्यतानुवाच तथास्त्विधि एकदन्तोन्तर्दधे सौ स्वस्वानन्दगदो भवद देवा मुनिगणाः सर्वे ययुः स्वस्वपदेषु च स्वस्वधर्मयुधा एवं मदासुरस्तेन शान्तिरूपधरकृदः प्रह्लादचैकदन्तेन कथितं ते चरित्रकम् दुष्टसङ्गतियोगेन त्वं मदोत्सिक्तभावतः अनादृत्यविधातारम्भ्रष्टो ज्ञानान्नसंशयः एकदन्तं गणेशं त्वम् भजादो दैत्यनायक तेन शान्दो महाभाग भविष्यसि न संशयः स एव एकदन्तस्तु भक्तानां कार्यसिद्धये करोदिस्वावतारांश्च नानारूपांस्तु दैत्यपरमौ दारुणौ दैत्यौ देवान्धकनरान्धकौ सम्भूतौ तौ हतौतेन भूत्वा कश्यपवेश्मनि तथैव दुर्मदिर्नाम दैत्यो भूधर्मलोपकः सान्दये तस्य शिवपुत्रो बभूवः गणासुरेण दुष्टेन धर्मलोपकृतो यदा तदा कपिलपुत्रोऽभूत् स एव त्वेकदन्तकः एवं नानावतारायः पालयते सकलं जगद एकदन्तकलांशेन धर्मरक्षणतत्परः तेषां कथा न शक्या वै गदितुं केनचित्परा गुणान्तं न ययुर्यस्य ब्रह्माद्या मुनयसुराः सुराः अधस्त्वमेकदन्तं तं भजभावेन दैत्यप तेन सर्वं चदेज्ञानं भविष्यदि सुशान्दिदं एवं मदासुरस्यापि कृतं खण्डनमञ्जसा एकदन्तेन सङ्क्षोपाचरितम् कथितं मया पठेद्यशृणुयात्तस्मै भक्तिम् मुक्तिम् ददाति सः यकदन्तः प्रसन्नात्मा सदा भवति सौख्यदः नासुरेण ना स्वभावेन मदस्तम् पीडयिष्यति शान्तिरूपेण नित्यम् स संरक्षे दैत्यनायकः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते मदासुरचरितसमाप्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः ओ